अथ चतुरशीतितमः सर्गः ततो निविष्टाम् ध्वजनीम् गङ्गामन्वाश्रिताम् नदीम् निषादराजो दृष्ट्वैव ज्ञातीम् सफलितोऽब्रवीत् महतीयमितः सेनासागराभा प्रदृश्यते नास्याम् तमवगच्छामि मनसापि विचिन्तयन् यदा न खलु दुर्बुद्धिर्भरतः स एष हि महाकायः कोविदारध्वजो रथे बन्धयिष्यति वापाशै पाशैरथ वास्मान् वधिष्यति अनुदाशरथिम् रामम् पित्रा राज्याद्विवासितम् सम्पन्नाम् श्रियमन्विच्छंस्तस्य राज्यः सुदुर्लभा भरतः कैकयी पुत्रो हन्तुम् समधिगच्छति भर्ता चैव सखा चैव रामो दाशरथिर्ममा तस्यार्थकामाः सन्नद्धा गङ्गानरूपेऽत्र तिष्ठत तिष्ठन्तु सर्वदाशाश्च गङ्गामन्वाश्रिता नदी बलयुक्ता नदी रक्षा माम् समूलफलाशनाः नावाम् शतानाम् पञ्चानाम् कैवर्तानाम् शतम् शतम् सन्नद्धानाम् तथा यूनाम् तिष्ठन्त्यभ्यचोदयत् यदि दुष्टस्तु भरतो रामस्येह भविष्यति इयम् स्वस्तिमतीसेन गङ्गामद्यतरिष्यति इत्युक्तोपायनम् गृह्य मत्स्यमांसमधूनि च अभिचक्राम भरतम् निषादाधिपतिर्गुहः तमायान्तम् तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान् भरतायाचक्षेथ समयज्ञो विनीतवत् एष ज्ञातिसहस्रेण स्थपतिः परिवारितः कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा तस्मात्पश्यतु काकुत्स्थत्वा निषादाधिपो गुहः असंशयम् विजानीते यत्र तौ रामलक्ष्मणौ एतत्त्ववचनम् श्रुत्वा सुमन्त्राद्भरतः शुभम् उवाच वचनम् शीघ्रम् गुहः पश्यतु मामिति लब्ध्वानुज्ञाम् सम्प्रहृष्टो ज्ञातिभिः परिवारितः आगम्य भरतम् प्रह्वो गुहो वचनमब्रवीत् निष्कुटश्चैव देशोऽयम् वञ्चिताश्चापि ते वयम् निवेदयाम ते सर्वम् स्वके दाशगृहे अस्ति मूलफलम् चैतन्निषादै स्वयमर्जितम् आर्द्रम् शुष्कम् तथा माम् संवन्यम् चोर्चावचम् तथा आशम्से स्वाशितासेना वत्स्येनाम् निभावनीम् अर्चितो विविधैः कामैश्वस्य सैन्यो गमिष्यसि इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे चतुरशीतितमः